हरि ओम् श्रीसीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्ड एकनवतितम सर्गः भरद्वाजेन ससैन्यस्य भरतस्य दिव्यसत्कारः कृतबुद्धिं निवासाय तत्रैव समुनितर भरतम् केकयी पुत्रम् आतिथ्येन निमन्त्रयेत् ब्रवीद् भरत स्वेन नन्वीरम् भवता कुटम् पाद्यम् अर्घ्यमथातिथ्यम् वने यदुपपद्यते अथोवाच भरद्वाजो भरतं प्रहसन्निवे जाने त्वां प्रीतिसंयुक्तम् तुष्येतं येन केनचित् श्रीरायास्तु तवैवास्या कर्तुम् भोजनम् मम प्रीतिर्यथा रूपहो मनुज शभये किमर्थं चापि निक्षिप्य दूरे बलं ह्य गतः कस्मान्नोपयातोऽस्मि सबले पुरुषभय भरतः पत्युवाचेदम् प्राञ्जलि तं तपो धनं न सैन्येनोपयातोऽस्मि भगवन् भगवद्भयात् राज्ञ हि भगवन्नित्यम् राजपुत्रेण वा तथ यत्न परिहर्तव्या विषयेषु तपस्विनः वाजिमुख्या मुख्या च मत्ताचे च वरवारणः प्रच्छाद्य भगवन् भूमिम् महतीम् अनुयान्ति माम् ते वृक्षानुदकम् भूमिम् आश्रमे शूत जान्ततः न ह्युति तेनाहम् एकैवागतस्ततः आनीयतामितस्य नेति अज्ञप्त परमर्षिणा तथानुचक्रे भरत् सेनाया समुपागमम् अग्निशालां प्रविश्यथ पिश्वापरिमृज च आतिथ्यस्य क्रिया हेतो विश्वकर्माणमाह्वयत् आह्वये विश्वकर्माणम् अहं तत्सारमेव च आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् आह्वये लोकपालान्तरिन् देवाञ्चक्र पुरोगमान् आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् प्राक्स्रोतसश्च यानद्य त्रियस्रोतस पृथिव्याम् अन्तरिक्षेत समायान् स्वद्य सर्वशः अन्यासवन्तु मैरेयं सुरामन्यासु निष्ठितम् अपराश्च शीतम् इक्षुकाण्डरसोपमम् अभयेदेव गन्धर्वान् विश्वावसुहुम् तथैवाप्सरसो देव गन्धर्वै चापि सर्वशः भूतामीचीं मतविश्वासीम् मित्रकेशीं बलम्बुषाम् भागदत्तां च हेवां च सो माम् अद्रीकुटस्थलिं शक्रं याचोपतिष्ठन्ति ब्रह्माणम् याश्च भामि सर्वास्तुम्बुरुणा साधम् अभये परं कुरुषु यद् दिव्यम् दिव्यनारी च श्वेत तत् कोबेरं ह्यैवतु इह मे भगवान् सोमो विरत्ताम् मन्नमुत्तमम् भक्ष्यं भोजं च चोषं च लेह्यं च विविधम् बहु विचित्राणि च माल्यानि पादपप्पू च्युतानि च सुरादीनि च पेयानि विविधानि च एवं समाधिना युक्ते तेजसा प्रतिभेन च शिक्षायुक्तम् सुव्रते चाब्रवीन्मुनिः मनता ध्यायतस्तस्य राङ्मुखस्य कृताञ्जलि आजग्मुक्तानि सर्वाणि दैवतानि पृथक् पृथक् मलयं दर्दुरं चैव ततः स्वेदन उपस्पृश्ये भो युक्त्या सुप्रियात्मा सुखम् शिवे ततोभ्य वर्षन्तघना दिव्या कुसुमवृष्टय देवदुन्दु विघोष दिक्षु सर्वा शुशुश्रुवे तव पुरुषोत्तमा वाता न तु चाप्सरोगणः स शब्दोदां च पुरुषभूमिं च प्राणिनां श्रवणानि च विषोच्चलक्ष्णः समूलय गुणान्वितः तस्मिन्नेवं गते शब्दे जिव्ये श्रोत्र सुखे नृणं भारतं सैन्यम् विधानं विश्वकर्मणः बभूव हि समा भूमि शाद्वलै बहुभिन्नः नीलवै दूर्य सन्निभै तस्मिन् बिल्वा कपि च पनस बीजपूरकः आम्लक्यो बभूष च्यूता च फलभूषितः उत्तरेभ्यः कुरुभ्य वनं दिव्योपभोग भवेत् आजगाम न रीतोम्य धीरजै बहुभिवृताय चतुश्शालानि शुभ्राणि शालाश्च गजवाजिनाम् हर्म्य प्रासाद संयुक्ता तोरणानि शुभानि चेत् शीत मेघनिभं चापि राजवेश्म सुतोरणम् शुक्लमाल्य कृताकारम् दिव्यगन्ध समुक्षितम् चतुरस्रम्भ संवादम् शयनसनया न वेत् दिव्यै सर्वरसे युक्तम् दिव्ये भोजन वस्त्रवत् चतुरस्रम् असंवादम् शयनासन यानवत् दिव्यै सर्वरसे युक्तम् दिव्य भोजन वस्त्रवत् उपकल्पित सर्वान्नम् भौतनिर्मलभाजनम् कृप्त सर्वासनम् श्रीमत् स्वास्तिर्णा शयनोत्तमम् विवेश महाबाहु अनुज्ञातो महर्षिणा विष्म तद्रत्न सम्पूर्णम् भरत कैके कै सुतः अनुजग्मुच्यते सर्वे मन्त्रिणा स पुरोहितः बहुश्च मुदा युक्तः तद् दृष्ट्वा वेश्मसंविधिम् तत्र राजासनं दिव्यम् गजनं छत्रमेव भरतो मन्त्रिभिः साधम् अभ्यवर्तत राजवेत् आसनं पूजया मासे रामायाभि प्रणम्ब्य च वरद्वाल विजनमादाय निशीलाय सचिवासवे अनुपूर्यान्निषेधश्च सर्वे मन्त्री पुरोहिताः ततः सेनापति पश्चात् प्रशाीलत् तत्र तत्र मुहूर्तेन मद्ये पायस गर्दमः उपातिष्ठन्त भरतम् भरद्वाज सशासनात् आसामभूयत कूलं पाण्डवमृत्तिकलेपनः रम्याश्चावसथा दिव्या ब्राह्मणस्य प्रसादजा तेनैव च मूर्तेन दिव्याभरणभूषितः आगुर्विंशति सहस्र ब्रह्मणा प्रहिताश्रियः सुवर्ण मणिमुक्तेन प्रवालेन च शोभितः आगुर्विंशति सहस्र कुबेर प्रहिताश्रियः याभिर्गृहीतः पुरुषे सोन्मादैव लक्ष्यते आगुर्विंशति सहस्र नंदना दत्तरो गण दुम प्रभय सूर्य वर्ष सह एक गंधर्वराजानो भरत जगु अलंबुषा मिश्र केशी पुंडरी कामन का उपानृत्यंत भरत भरद्वाजस्थ शासना माल्यान देश याने चैत्र रथे वने प्रयागे तान्य दृश्यन्ते भरद्वाजस्य तेजसा विद्वा मादङ्गिका आसन् क्षम्याग्राह विभीषकः अश्वत्था नर्तका चासन् भरद्वाजस्य तेजसा ततः सरल दाला च तत्र सम्पेतु कुब्जा भूत सिंच मलकई जूर याचता मलती मल्लिका दातिर याचता प्रमद विग्रह कुत्व भरद्वाजाश्रमें वसन सुरां सुरा पीबत पायस चुभुषिता माता चा भक्ष्यन्तां यो यदिच्छति उच्छोद्य स्नापयन्ति स्म नदीतीरे चुवल्गुजु अप्येकमेकम् पुरुषम् प्रमदः सप्त चाष्ट संवहन् च समापेतुर् नार्यो विपुलोचनः वरिं वृज्ये तदान्योन्यम् पाययन्ति वराङ्गणः हयान् उष्ट्रान् तथैव सुरभे सुताम् अभोजयन् वाहनप तेषां भोजम् यथाविधि इक्षुश्च मधुजाला च भोजयन्ति स्म वाहनम् इक्ष् कूवद योधानाम् चोदयन्तो महाबलः नाशु बन्धो सुमाजाम्नम् न गजम् राचमौ तत्र सम्बभौ सर्पितः सर्वगामै च रक्तचन्द्र रोषितः अप्सरो गुणसंयुक्तः संध्यावाचीरयन् नैव अयोध्यां गमिष्यामो न गमिष्याम दण्डकम् कुशलम् तथा सुखम् इति पादः हाईश्वाह बंधक अनाथास्तम विधि लाच में मुदीरयन संप्रुष्ट विने दुस्ते नात्र से भरतमी चाब्रुव्य हसंत गाय सैनिक बाल्योपेता सहसृजे ततो भुक्त एव ताम् तेषाम् तदन्नम् अमृतोपमम् दिव्यानुद्वीक्ष्य भक्षान्ताम् अभवेत् भक्षणे मतिः सृष्ट्या चेष्टश्च वध्यश्च बलस्था चापि सर्वतः बहूते वृषम् प्रीता सर्वे चाह वाससः कुञ्जरा कोशवाश्च मृगपक्षिणः बहु सुवृता तत्र न तु यन्यं न कल्पयत् न शुक्रवासः तत्रासीत् क्षधितो रजसा धस्तकेशो वा नर कश्चित् न दृश्यते आजश्चापि च फलनिर्यूह संसिद्धे गंधर सू पैर्गंधर सान्व पुष्पूर्ण शुक्ल चाभित ददृशोर्स्मृता त्र नौ सबूव वन पार्शेशयस कर्द काम दुघ गो वाप्यो मै रेय पूर्ण चुष्ट मसे प्रतप्ते पिचरे चापि मार्गमायूरकु कक्कुटै पात्रीणां च सहस्राणि स्थालीनां नियतानि च न्यर्बुदानि च पात्राणि चाचकुम्भे मयानि च स्थाल्यै कुम्भे करम्भैश्च दधि पूर्णा सुसंस्कृतः यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः प्रजा पूर्णारसालस्य दध्ना श्वेतस्य च परे बभूवस्यान्ये शर्कराणाञ्च सञ्चयः कर्कांशूर्णैकशायांशे स्नानानि विविधानि च ददृशुर्भाज नस्थानि तीर्थेषु सरिताम् नरः शुक्लानंशो मतश्चापि संसरावन सञ्चयन् शुक्लांश्च नश्च समुद्रेश्व वनिव तिष्ठते दर्पणान् परिमुष्टां च वाससां चापि सञ्चयन् पादकोपानञ्चमान्यत्र सहस्रजे आञ्जने कङ्कतां कूर्चन् छत्राणि च धनुंसि च मर्मत्राणानि चैनान्यासना च प्रतिपान हृदान् पूर्णाम् खरोष्ट्र गजवाजिनाम् अवगाह्य सुतीर्था च हृदांसोत्पलपुष्कराम् आकाशे वर्ण प्रतिमान् स्वच्छतो यान् सुखोप्लवान् नील वैदूर्य वर्णा च मृदुं य ददृशु तत्र सर्वशः व्यापयन्त मनुष्यास्ति स्वप्नकल्पं तदद्भुतं दृष्ट्वातिथ्य कुतम् तादृ भरतस्य महर्षिणा इत्येवं रममाणानाम् देवानाम् इव नन्दने भरद्वाजा रम्ये भारात्रिव्यत्य वर्तते प्रति जग्मो गन्धर्वा च भरद्वाजम् ता च सर्वा तथैव मत्ता मदिरोत्कट नराय तथैव दिव्या गुरुचन्दोक्षितः तथैव दिव्या विविधा श्रुत्तमा पृथक् विकीर्णा मनुजे प्रमार्दितः इत्याल्मीकी अधिकाव्ये विधाकाण्डे एक नवती नवतीम सर्ग है सीता रामचंद्रमणमस्तु